श्रीमद्भागवत्महापुराणं द्वादशस्कन्ध चतुर्थोऽध्यायः बुद्धिन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रमं दृश्यत्वाव्यतिरेकाभ्याम् आद्यन्तवद्वस्तु यत् दीपसश्चक्षुश्च रूपं च ज्योतिषो नापृसभवेत् एवं धीखानि मात्राश्च न शूरन्यतमादितात् बुद्धिर्जागरणं सप्त सुप्तेरिति चोच्यते मायामातृमिदं राजन्ना त्वं यथा जलधरा व्योम्नी भवन्ति न भवन्ति च ब्रह्मणीदं तथा विश्वम् अव्यवं सत्यं शवयव प्रोक्त सर्वा वयविनाभिह विनार्थेन प्रतीयेरन् पटस्येवाङ्गतन्वतन्तवः यत्सामान्यविशेषाभ्यामुपलभ्येत स भ्रमः अन्योन्यापाश्रया सर्वम् आद्यन्तवदवस्तु यत् विकारख्यायमानोऽपि प्रत्यगात्मानमन्तरा न निरुप्योऽस्यणुरपि स्याचे चे समात्मवत् न हि सत्यस्य यदि मन्यते नानात्वं छद्वयोर्यद्वन् ज्योतिषोर्वातियोरिव यथा हिरण्यं बहुधा समीयते नभिः देवं वचोभिर्भगवानथोक्षजो व्याख्यायते लौकिकवैदिकैजनैर् यथाघनोऽर्कप्रभूर्कदर्शितो यर्कांसभूतस्य च चक्षुषस्तमः एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशङ्कस्यात्मन आत्मबन्धनः धनो यदार्कप्रभुवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा यथा ह्यहङ्कारोपाधिरात्मनो जिज्ञासया नस्यति तर्ह्यस्मरेत् यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनं छित्त्वाच्युतात्मानुभवोवतिष्ठते त्वमाहुरात्यन्तिकमङ्गसप्लवम् नित्यदा सर्वभूतानां ब्रह्मादीनां परं तप उत्पत्ति प्रलया विवेके सूक्ष्मज्ञा संप्रचक्षते कालस्रोतो जनाशु श्रियमाणसि नित्यदा परिणामिनांस्थास्तां जन्म प्रलयहेतवः अनाद्यन्तवतानेन कालेनेव नेश्वरमृतिनाम् अवस्थानैव दृश्यन्ते वि यतिज्योतिषामिव नित्यो नैमित्तिकश्चैव तथा प्राकृतिकोलयः आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी एता करुश्रेष्ठजगद्भिधातु नारायणस्याखिलसत्प्रधाम्नः लीलाकथा से कथिता समासतः कास्नेन नाजो नान्य नाजोऽप्यभिधातुमीश भगवत नान्यप्लवो भगवतः पुरुषोत्तमस्य लीलाकथा सां लीलाकथा रसनिषेवणमन्तरेण पुंसो भवेद्विविध दुःखदवार्जितस्य पुराणसंहितां नेतामृषिनारायणोऽ व्ययः नारदाय पुराप्राह प्राह कृष्णद्वैपायनाय स वै मह्यं महाराज भगवान् बादरायणः इमाम्भं भागवतीं प्रीतसहितां वेदसम्मिताम् एतां वक्षत्यसौ सूत ऋषिभ्यो न विषालये दीर्घसत्रे कुरुश्रेष्ठसम्पृष्ट शोनकादिभिः ये श्रीमद्भागवते महापुराणे पार हंसा शयितायां द्वादश स्कंधे